अथ चतुश्चत्वारिंशः सर्गः विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान् स हि तस्मिन् हरिः श्रेष्ठे निश्चितार्थोऽर्थसाधने अब्रवीच्य परमप्रीतः प्रभुः सर्ववनौकसा न भूमौनान्तरिक्षे नाप्सुवा गतिभङ्गम् ते पश्यामि हरिपुङ्गवा सासुराः सह गन्धर्वाः सदा गनरदेवताः विजिताः सर्वलोकास्ते ससागरधराधराः गतिर्वेगश्च तेजश्च लाघवम् च महाकपे रितुस्ते सदृशम् वीरमारुतस्य महौजसः तेजसा वापि ते भूतम् न समम् भुवि तद्यथा लभ्यते सीता तत्त्वमेवानुचिन्तया त्वय्येव हनुमन्नस्ति बलम् बुद्ध्यः पराक्रमः देशकालानुवृत्त्यश्च नयश्च नय पण्डिता ततः कार्यसमासङ्गमवगम्य हनूमती विदित्वा हनुमन्तम् च चिन्तयामास राघवः सर्वथा निश्चितार्थोऽयम् हनूमति हरीश्वरः निश्चितार्थतरश्चापि हनूमान् कार्यसाधने तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः तम् समीक्ष्य महातेजव्यवसायोत्तरम् हरिम् कृतार्थ इव सम्भ्रष्टः प्रहृष्टेन्द्रियमानसः अङ्गुलीयमभिज्ञानम् राजपुत्र्याः परन्तपः अनेन त्वाम् हरिश्रेष्ठचिह्नेन जनकात्मजा मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति व्यवसायश्च ते वीरसत्त्वयुक्तश्च विक्रमः सुग्रीवस्य च सन्देशसिद्धिम् कथयतीव मे स तद्गृह्य हरिश्रेष्ठः कृत्वा वन्दित्वा चरणौ चैव प्रस्थितः प्लवकर्षभः सतत् प्रकर्षन् हरिणाम् महद्बलम् बभूव कपिः गताम्बुदेव्योम्नि विशुद्धमण्डलः शशीव नक्षत्रगणोपशोभितः अधिबलबलमाश्रितस्तवाहम् हरिवर पवनसुत यथागम्य जनक सुता हनुम तथा कुरस्व इशे श्रीमद्राणे वाक आदि का्ये किन्धा कांडे चतरीश